अधसप्ततितमः सर्गः ततः प्रभाते जनकः कृतकर्मा महर्षिभिः उवाच वाक्यम् वाक्यज्ञः शतानन्दम् पुरोहितम् भ्राता मम महातेजावीर्यवानति धार्मिकः कुशध्वज इति ख्यातः पुरी मध्यमसच्छुभाम् वार्याफलकपर्यन्ताम् पिबन्निक्षुमतीम् नदीम् साम् काश्याम् विमानमेव विमानमिव पुष्पकम् तमहम् द्रष्टुमिच्छामि यज्ञगोप्ता समे मतः प्रीतिम् सोऽपि महातेज इमाम् भोक्ता मया सह एवमुक्ते तु वचने सन्निधौ आगताः केचिदव्यग्राजनकस्तान् समादिशत् नरेन्द्रस्य प्रयजुः शीघ्रवाजिभिः समानेतुम् नरव्याग्रं रव्याघ्रम् विष्णुलिन्द्राज्ञया यथा साङ्काश्यान्ते समागम्य ददृशुश्च कुशध्वजम् न्यवेदयन् यथा वृत्तम् जनकस्य चिन्तितम् तद्वृत्तम् नृपति श्रुत्वा दूतश्रेष्ठैर्महाजपैः आज्ञया नरेन्द्रस्य आजगामकुशध्वजः सददर्शमहात्मानम् जनकम् धर्मवत्सलम् स्वाभिवाद्य शतानन्दम् जनकम् चातिधार्मिकम् राजार्हम् परमम् दिव्यमासनम् सोऽध्यरोहत उपविष्टावभूतौ तु भ्रातरावमित द्युती प्रेषयामास चतुर्वीरौ मन्त्रिः श्रेष्ठम् सुदामनम् गच्छ मन्त्रिपते शीघ्रमिक्ष्वा कुममित सह दुर्धरिषमानयः स्व तु रघूणाम् कुलवर्धनम् ददर्शशिरसा चैनमभिवाद्येदमब्रवीत् अयोध्याधिपते वीरवैदेहो मिथिलाधिपः सत्त्वान् द्रष्टुम् व्यवसितः सोपाध्यायपुरोहितम् मन्त्रिश्रेष्ठवजः राजा सर्षिगणस्तथा सबन्धुरगमत्तत्र जनको यत्र वर्तते राजा च मन्त्रिसहितः सोपाध्यायः स वाक्यम् वाक्यविदाम् श्रेष्ठो वैदेहमिदमब्रवीत् विदितम् ते महाराज इक्ष्वाकुकुलदैवतम् भक्ता सर्वेषु कृत्येषु वसिष्ठो भगवान् ऋषिः विश्वामित्राभ्यनुज्ञातः सः सर्वैर्महर्षिभिः धर्मात्मा वसिष्ठो मे यथाक्रमम् तूष्णीम् भूते दशरथे वसिष्ठो भगवानर्षिः उवाच वाक्यम् वाक्यज्ञो वैदेहंस पुरोधसम् अव्यक्तप्रभवो ब्रह्म शाश्वतो नित्य अव्ययः मरीचे, मरीचे कश्यपः सुतः विवस्वान्कश्यपाजज्ञे मनुर्वैवस्वतः स्मृतः मनुः प्रजापतिः पूर्वमिक्ष्वाकुश्च विद्धिपूर्वकम् इक्ष्वाकोस्तु सुत श्रीमान् कुक्षिरित्येव विश्रुतः कुक्षे रथात्मजः श्रीमान् ऋकुक्षिरुदपद्यत द्विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् बाणस्य तु महातेजा अनरण्यः प्रतापवान् अनरण्यात् पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोरपि त्रिशङ्कोरभवत्पुत्रो धुन्धुमारो महायशाः धुन्धुमारान्महातेजा युवनाश्वो महारथः युवनाश्व सुतश्चासीन् मान् धाता पृथिवीपतिः मान् धातुस्तु सुतः श्रीमान् सुसन्धिरुदपद्यता सुसन्धेरपि पुत्रौ द्वौ यशस्वी ध्रुवसन्धेस्तु भरतो नाम नामतः भरतात्तु महातेजा असितो नाम जायता हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः ताब्श्च सप्रति युध्यन्वै युद्धे राजा प्रवासितः हिमवन्तमुपागम्य भार्याभ्याम् सहितस्तदा असितोऽल्पबलो राजा कालधर्ममुपेयिवान् द्वे चास्य भार्ये गर्भिण्यो बभूवतुरिति श्रुतिः एका गर्भविनाशार्थम् सपत्न्यै सगरम् ददौ ततः शैलवरे रम्ये बभूवाभिरतो मुनिः भार्गवश्च वनो नाम हिमवन्तमुपाश्रितः तत्र चैका महाभागा भार्गवम् देववर्चसम् ववन्दे पद्मपत्राक्षी काङ्क्षन्ति सुतमुत्तमम् तमृशिंसाभ्युपागम्यकालिन्दी चाभ्यवादयत् सतामभ्यवदद्विप्रः पुत्रेऽप्सुम् पुत्रजन्मनि तव कुक्षौ महाभागे सुपुत्रः सुमहाबलः महावीर्यो महातेजा अचिरात् सञ्जनिष्यति गरेण सहितः श्रीमान् मा शुतः कमले क्षणे च्यवनम् च नमस्कृत्य पत्या विरहिता तस्मात् पुत्रं देवी व्यजायता सपत्न्या तु दत्तो गर्भजिघांसया सह तेन गरेणैव सञ्जातः सगरोऽभवत् सगरस्यासमञ्जस्तु असमञ्जा तथांशुमान् दिलीपोऽशुमतः पुत्रो दिलीपस्य भगीरथः था। भगीरथात् ककुत्स्थश्च ककुत्स्थाच्च रघुस्तथा रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः कल्माषपादोऽप्यभवत्तस्माज्जातस्तु शङ्खणः सुदर्शनः शङ्खणस्य शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मनुः मारोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात् अम्बरीषस्य पुत्रोऽभून्नहुशश्च महीपतिः नहुशस्य महीपति ययातिस्तु नाभागस्तु ययातिजः नाभागस्य बभूवाज अजाद्दशरथोऽभवत् अस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ आदिवंशविशुद्धानाम् राज्ञाम् परमधर्मिणाम् इक्ष्वाकुकुलजातानाम् वीराणाम् सत्यवादिनाम् रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप सदृशाभ्याम् नरश्रेष्ठसदृशे दातुमर्हसि इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्ततितमः सर्गः